तम् निवारयितुम् शक्तो नान्योऽस्ति भुवि कश्चन त्वदृतेऽद्य महाभाग सर्ववेदविदाम्बर पाहि माम् भगवन् पापादस्माद्दारुणदर्शनात् राक्षसोऽयमिहातुम् वै नूनमावाम् समीहते वसिष्ठौ वाचा मा भैः पुत्रि न भेतव्यम् राक्षसात्तु कथञ्चन नैतद्रक्षो भयम् यस्मात् पश्यसि त्वमुपस्थितम् राजा कल्माषपादोऽयम् वीर्यवान् प्रथितो भुवि स एषोऽस्मिन् वनोद्देशे निवसत्यति भीषणः गन्धर्व उवाच तमापतम् तम् सम्प्रेक्ष्य वसिष्ठो भगवान् ऋषिः वारयामास तेजस्वी हुङ्कारेणैव वा भारत मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिण मोक्षयामास वैशापात् तस्माद्योगान्नराधिपम् स हि द्वादशवर्षाणि वासिष्ठस्यैव वा तेजसा ग्रस्त आसीद्ग्रहेणैव पर्वकाले दिवाकरः रक्षसा विप्रमुक्तोऽथ स तेजसा रक्षयामास सन्ध्याभ्रमिव भास्करः प्रतिलभ्यततः संज्ञामभिवाद्य कृताञ्जलिः उवाच काले वसिष्ठम् ऋषिसत्तमम् सौदासोऽहम् महाभागयाज्यस्ते मुनिसत्तम अस्मिन् काले यदिष्टंते ब्रूहि किम् वसिष्ठ ते वृत्तमे उवाच वृत्तमेतद्यथा गच्छ राज्यं प्रशाधि वै ब्राह्मणम् तु मनुष्येन्द्र मावमंस्थाः कदाचन राजोवाच नावमंस्ये महाभाग कदाचिद्ब्राह्मणानहम् त्वन्निदेशे स्थितः सम्यक् पूजयिष्याम्यहम् विजान् इक्ष्वाकूणान् च येनाहमऋणः द्विजोत्तम तत्त्वत्तः प्राप्तुमिच्छामि सर्ववेदविदाम्वर अपत्यमीप्सितुम् मह्यम् मह्यं दातु मर्हसि गन्धर्व उवाच ददानीत्येव तम् तत्र राजानम् प्रत्युवाचः वसिष्ठः परमेश्वासम् सत्यसन्धो द्विजोत्तमः ततः प्रति ययौ काले वसिष्ठः सहतेन वै ख्यातां पुरीमिमां लोकेष्वयोध्यां मनुजेश्वर